अथ प्रथमकाण्डे द्वितीयप्रश्नः प्रारम्भः ीर्घ्यायुत्वायवत्य समोषधेर्घ्यायश्वता रिप्रभवेश्वस्युत्तरान्यश्रीयापोऽस्मान् मातर सुन्धन्तुर्हृतेन नो कृतपोः पुनन्द विश्वमस्मत्प्रमुदाभ्यश्रुचिरापोदये सोमस्य धनुरसि महीराम्बयो वृत्तस्य चिक्षुष्वाभि चिक्षुर्मेता हि जिपधिस्वा पुनातमा वाग्पदि स्वापुनात् देवस्था सविता पुनात्त्वच्छित्रेण पवित्रेण वसो सूर्यस्य रक्ष्मिभस्वस्य दे पवित्रपदे पवित्रेण यस्मैकम् पुने दक्षके यमावो देवासये महे सत्यधर्माणोऽत्वयासो हवामहेन्द्राग्नेत्या वा पृथिवी आोचि आगो त्रि प्रिये स्वाहा मेधायि मनसेज्ञये स्वाहा देवायि तमसेज्ञये स्वाहा तरस्वत्रिभूष्ण्ये स्वाहापो देवे बृहदेर्विश्वशं भ्यावापृथिवी रुन्धरिक्षं बृहस्पजन्मा हविषा वृथाद स्वाहा विश्वे देवस्य नेतन्मर्तावर्णेत सख्यं विश्वे रायिष्यं नृणेत पश्यसे स्वाहृत्सामय विश्वादितार्माणोरु हेमोऽङ्गिरस्योर्णं ने यच्छायि मा मा माहिंसीर्विष्णो शर्मासि शर्मैरमालस्य शर्म मे यच्छ नक्षत्राणां मादिपाहेन्द्रस्य योनिरसि माहिंसी कृष्ये त्वा सुयी लाभ्यस्तोषदेभ्यस्तूस्वा देवो वनस्पतिरोध्व माताश्चादृशस्वाहायज्ञम् मनसा स्वाहात्याहोरोरन्दरिक्षा स्वाहायज्ञम् वा दादारभे दैवीन्द्रिजन्मलामहे सुमुडे कामभिष्टये चोधान्यज्ञवा हसगो सुपादाना हसद्वशे देवानो जाता मनोरिजः सुदक्षा दक्षपितारस्तेनः पान्तु तेन वन्तुतेभ्यो नमस्तेभ्यस्वाहायन्दि गोपायुनः स्वस्थये प्रभुधेनः पुनर्दः अमर्णे भ्रतवासि देव आवत्येष्वा यज्ञे श्रीयः श्वे देवाभिमामामावभक्तं भूषा सन्न्यासो मो राधसा देवस् पितामसोर्मसुधा भाराश्रे यत्सो मा भूया परमाकृणन् भूर्त्याराधिमा हमायुषा चन्द्रम सिममभोगाय भव वस्त्रं सिममभोगाय भोश्र सिममभोगाय भवाय सिममभोगाय भवशागो सिममभोगाय भवमेष सिममभोगाय भवाय त्वा वरुणाय त्वा निवृत्ती त्वा रत्राय त्वा देवी स्तम् गोमावक्रमिशमच्छिन्नम् तन्तुम् पृथिव्या अनुविरेशम् भद्रादविश्रे प्रेहि गृहस्पद एतारे अश्वस्य वरा पृथिव्या आरेशत्रोनुग्रमे सर्ववीर एदमगन्मदेवैजनम् पृथिव्या विश्वे देवाय दशन्तपोर्वर्सावादुषान्तरन्दोराय स्पोषेण यन्दे शुक्रतमो हृदम् वर्त्यस्तया सम्भव प्राजं गक्षजोरसि मनसा दृष्टा विष्णवेदस्याः शुक्रमस्य मनुमेवैश्वहमद्मे दक्षिणःखने कान्यशेऽभिलीयसे प्रायमानोमिवश्चिक्षत्रियास्य नितरस्वैतस्यैर्ष्णे सारस्वप्राजे सुप्रदे सम्भवमित्र ोषाध्नपान्द्रायाध्यक्षायानुत्वा मातामन्यतामनुपितानुप्रादाच्यो नो देवमध्येहीन्द्राय सोमनो रुद्रस्त्वावर्तयत मित्रस्य पथा स्वस्ति सोमसखापरे पश्यस्यादित्या स्वासुन्दैरन्मधुरुद्रावराजिवेदपृथिव्या स्वामोद्धं नार्मन्दामिष्ठीं च वयं विष्णमस्य न्दृशिमाहगौरायस्पोषेण वियोषम् पृच्छ्यताम् वरुषापरर्गन्धस्य काममवतमदायरसो अच्युतोमाच्योक्रस्यैतमत्यामि सत्यसुमसगौरत्कथामभिप्रियम् मतिमोहर्भाय श्यामदिर्भारेद्युतसमीमनिहिरण्यपाणिरमिमेत सुकृतकृसुवः यित्वा ज्ञानायित्वा प्रियास्वप्राणिः प्रियास्वानप्राणन्दो स्वे क्रीणाम्यो यस्वन्दम् वयस्वन्दं वेद्यावन्दमभिे शुक्रेण क्रीणामि चन्द्रञ्चन्द्रेणामृतमृदय संयते श्च रमेण क्रीणाम्यस्मे देवम् धर्मै गैरायि श्रयन्दामस्मे ज्योतिस्वामविक्रीणित्रो नये सुमित्रधायिन्द्रस्य क्रस्या नस्वानभ्राजाङ्गारे बम्भारे हस्तक्रीणास्तान् रक्षम्बोधन् यिषा स्वायुषा दोषधीनाघोरसेनोप्येनो दस्सा ममो पूर्वन्तरिक्षमम् विश्वदित्याः सदोऽस्य दित्या सदासेदास्तभ्राद्यामृषभो अनन्तरिक्षममेव विश्वाभुवनानि सम्राज्ञश्वेत्तानि वर्णस्य वृदानि वनेष्न्दतानवायमर्वत्सकृतम् वरुणो विश्वद्यन्ति सौर्यमदधात्स मम ग्रावदत्यञ्जातवेदसन्देवम् वहन्ति केतवः कृषे विश्वाय स्वावेदम् दोर्जाहावनश्रूरनो ब्रह्मचोदनो वरुणस्य स्कम्भ नमसि वरुणस्य स्कम्भसत्यनमसि प्रत्यस्यो वरुणस्य पाशः व भुवस्व देविश्वान्धामानि मात्वा परिबन्धिनो विदन्मा त्वाय मा गन्धर्वो विश्वावसरादगच्छेण भूत्वा परापतयमानस्य नो गृहे देवैः सग्रस्कृतं यजमानस्य स्वस्ति स्वस्ति कामनेहसं विश्वा परिद्विषा वृणत्रिविन्ददेव स न मामित्रस्य वर्णस्य चक्षसे महो देवा यतृतर्यदुरे दुषे य मेदवे दिवस्पुत्राय सूर्याय शुगुसुरवरुणस्य स्कम्भनमसि वरुणस्य स्कम्भसर्युन्मुक्तो वरुणस्य वाचः ष्णवे त्वादिवेरात्यमष्णवेय सोणे विष्णवे त्वाश्येनाय त्वा सो विष्णवे त्वायविषायिनं देविश्वापरिभुवस्तु यज्ञङ्गीरहा प्रचरा सोमदुर्गानीत्या त्वा गृह्णामि परिवदये त्वा गृह्णामि तु नोनत्रये त्वा गृह्णामिय त्वा गृह्णामिष्ठाय त्वा गृह्णामिष्टमस्य न दृश्यन् देवानाभोजो ेव स्वामाप्यायतामिन्द्रायैक धनमिद आदुभ्यमिन्द्रप्यायतामात्ममिन्द्रायप्यायस्वाप्यायसी संयामे हृदया स्वस्ति दे देव सम सत्यामसु येष्टा रायप्ये वरायस्तमृतरादिभ्या नमो दिवे नमः पृथिव्याह्ने व्रतपदे त्वं व्रताना व्रतपदे स्यामो धनो रेषा सात्त्वय्या नव तनो यमो सामयि सह नो ैर्द्रियातनोऽस्तवाहायाते यज्ञेयाशया रजाशया हराशयातनोर्वष्ठागः परेष्ठो क्रम्ब च अभावधेम्ब च अभावधे गुस्वाहा ीमेऽस्यवतान्माना चमवदान्मा मे रन्नभो नामान्योऽस्यां पृथिव्यामस्यायुषानां यत्त्वेन धृष्टन्नाम यज्ञन्ते तृतीयस्यां तृतीयस्यां पृथिव्यामस्यायुषानां हितेना धृष्टन्नामि ृदे यज्ञान्ध्रवासि देवेभ्यस्वदेव स्वावसुपरस्तात्पातमोदवास्वाक्षरदःपादप्रजेरास्वारुस्यात्पाद विश्वकर्मात्पादितेरुत्तरतःपाद सिंहेरसपे स्वाहा सिंहेरसुप्रजाभरिस्वाहा सिंहेरजरायश्व स्वाहा सिंहेरस्यादित्यवनिस्वाहांहेरस्या वह देवान् देव यस्वाः भोगेभ्य स्वा विश्वायुरसि पृथ्वीन्द्रम् हर्तृवक्षदस्यन्तरिक्षन्द्रकम् आर्चन्द्रगुमास्मान्यतयुञ्जदे यो विप्राविप्रस्य बृहतो विभश्चितः विहोत्रादेवयिनाविदे सविदुःपरिः सुराग् दुर्यागो कामदेव श्रुतो देवेष्वाघोषेधा मानो वीरो जायताम् कर्मण्यो यो सर्वे न जीवामयोम सद्मशी इदम् विष्णुर्विचक्रमेपदम् दा समोधमस्य पाकुं सरैरावदेधे नमते गोतम् सूयवशिनीमनवेशस्येना द्वादशी विष्णुरेते दाधारपृथिवीमभितामयोधै प्राची प्रेतमधरम् कल्पयन् देहो यज्ञम् नयतम् माजेश्वरथमत्र रमेधाम् अस्मिन् पृथिव्या वा विष्णवृत वा पृथिव्या महावा विष्णुतवान्तरिक्षाधस्तो वृणस्वगर्वेरा प्रयच्छ दक्षिणादो गम्भीर्याणि प्रवोचयः पार्थिवाणि मे रजागुं श्रियो अश्वभायदुत्तरगुंस्रमाणस्त्रेधो विष्णो रमृष्ठम्ये स्वमैष्णवमेव प्रतिभिन्नपृथ्वी राजराजे वामभागु इेन त्रिश्रीमनः प्रसिदम् लो मानोस्ताविध्यरक्षसस्तविष्ठदञ्जनस्पृशतु विसृजविश्वः स्पशो विसृजतोऽज्ञोभवायुर्विशो अस्यादः यो नो दूरे अन्धं शौर्यो अञ्जग् ष्ठप्रत्यातनष्वञ्जमित्रागो नाञ्जामित्रो जानाति सुमतिञ्जविष्ठयैव ते ब्रह्मणे गातुमैरत् स्मै सुखनानि राजयोभगत् सुदा नित्येन हविषायुक्थेश्वा आयुष दुरोणे विश्वे तस्मै सुगुना साष्टिः रचामि ते सुलिङ्गो शर्माक्सन्दे भावाता जलदामि श्वा स्वा सुरथामद्येमास्मे क्षत्राणि धारयेत्यो यूर्याचरेतुमत्मम् दोषावस्तर्ति दिवागुम् समनत्यो ह्रीडन्दस्त्वा समनसः सवेमाभिद्युम्ना यस्त्वाश्वस्सु हिरण्योत्मयादिवसमतारथेन सस्यत्रादा भवसि तस्य सखायस्त आदित्यमानुषज्ञोषत् मि बन्धुदावचो विस्तन्मा विदर्गोतमादन्ययाय अश्ववचदश्रिगेहोदर्यविष्ठसुक्रतोदमोनाः अश्वप्रयस्तरणयः सुषेवा अलन्द्राजो मृगाश्रमिष्ठाः ते बाल्यवः सद्धियुन्दो निषद्या नेतवनह्वान्तमुरा ये बाल्यवो मामदेयुन्दे ने पश्यन्दो अन्धम् रक्षता सुकृतो विश्ववेदादिप्सन्तयत्रिपवनाहदेशधन्यस्तोदास्त्वंसा तेन अयाते अग्ने समिधामिदेशस्यमानम् गृहाय बाह्यस्मान् गृहो निदो मित्रमहो हत्या ौहणम् भाजि नमाजिघर्म्यमित्रम् रजक्षमपयासऋषप्पा तुषा प्रवताभानिरार्विश्वानिकृदेवे मायासहते धुरे वा शिषि देशम् गे रक्षसे विनिक्षे दुरस्वानासो दिविशन्तग्ने स्थिमायुधा रक्षसे हन्तो इति कृष्णयुर्वेदतैतिरीयशाखायाम् प्रथमकाण्डे द्वितीयः प्रश्नः समाप्तः